श्रीहरये नमः अथ पञ्चमोऽध्यायः ऋषभ नायं देहो देहभाजा नृलोके कष्टान् कामानहर्ते विभुजां ये तपो दिव्यं पुत्रकायेन स त्वं श्रुत्येत्यस्माद्ब्रह्मसौख्यं त्वनन्तं महत्सेवान्द्वारमाकोर्विमुक्ते तमोद्धारं योषितां सङ्गिसङ्घं महान्तस्ते समच्छित्थाः प्रशान्ता मन्यवः सुहृतः साधवो ये यो भोम्ययी से कृतसौहृदार्ता जनेषु देहम्भरवार्तिकेषु गृहेषु जायात्मजराति मत्सुना प्रीतियुक्तायावधर्तास्य लोके नूनम् भ्रमत्थ गुरुते विकर्म यदीन्द्रियप्रीतय आपृणोति न साधु मन्ये यद आत्मनो यम् असन्नपि क्लेशद आसदेहः पराभवस्तावदबोधजातो यावन्त जिज्ञासत आत्मतत्त्वं यावत्क्रियास्तावदितं मनो वै कर्मात्मकं येन शरीरबन्धः एवं मनःकर्मवसंप्रयुङ्क्ते अवित्ययात्मन्योभीयम् प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् यथा न पश्यत्य यथा गुणेहां स्वार्थे ब्रह्मत्तसहसा विपश्चेत् गतं स्मृतिर्विन्दति तत्र ताप नासाध्यमैतुण्यमकारमज्ञः पुंसस्त्रियामि तु नीभावमेतं तयोर्मितो हृदयग्रन्थिमाहुः अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्यमहों यमहं ममेति यथा मनोहृतयग्रन्थिरस्य कर्मानुभतो दृढ आश्लतेत तथा जनः संपरिवर्तते मुक्तः परं यात्यधिहाय हेतुं हंसे गुरौ मयि भक्त्या अनुवृत्तया वितृष्णया द्वन्द्वदितिक्षया च सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्या मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्काद्गुणकीर्तनात्मे निर्भैरसां योपशमेन पुत्रा जिहासया देहेतात्मबुद्धेः अध्यात्मयोगेन विविक्तसेवयां प्राणान्द्रियात्मापि जयेन सत्यर्क् सत्तद्धया ब्रह्मचर्येण शश्वत् यमेन वाचां सर्वत्र ज्ञानेन विज्ञानविराजितेन योगेन लिंगं लिङ्गं व्यपोहेत्कुशलोऽहमाज्ञम् कर्माशयं हृदयग्रन्थिभन्तम् अविद्यया साधितम् अप्रमत्तः अनेन योगेन यतोपदेशं, सम्यक् व्यभोक्य उपरमेतयोगात् पुत्राञ्च शिक्षां नृपो गुरुर्वा मल्लोककामो बदनुग्रहार्थः इत्थं विमन्युरनुःशिष्या तदज्ञान् न योजयेत्कर्मसुकर्म मूढान् कं योजयन्मनुजोत्थं लभेत निपातयन्नष्टदृशं हि गर्ते लोकस्वयं श्रेयसि नष्टदृष्टेर्योर्तान् समीहेतनिकामकामाः अन्योन्यभरैः सुकले सहेतो अनन्तदुःखं स च न वेदमोढः कस्तं स्वयं ततः विज्ञो विपश्चेत् अविद्यायामन्तरे वर्तमानम् दृष्ट्वा पुनस्तं सकृणक् उभुक्तिं प्रयोजयेद्वत्पदघं यथान्तं गुरुर्न स्यात्त्वजनो न स्यात् न स्याज्जननी न सा दैवं न तत्स्यान्तपतिश्च स स्यात् न मोमोचयेत्यः समुद्भेदमृत्यम् इदं शरीरं मम धुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः पृष्ठे कृत मे यध धर्म आरात् अतो हि मां वृषभं प्राहुरार्याः तस्माद्भवन्तो हृदये न जाता सर्वे महीयां सममं सनाभम् अक्लिष्टबुद्ध्या भरतं भज त्वं शुश्रूषणं तद्परणं प्रजानां भूतेषु विरुभ्य शरीरस्रुपास्तेषु सभोतनिष्ठाः ततो मनुष्या प्रमतास्ततोपि गन्धर्वसिद्धा विबुधानुघाये देवासुरेभ्यो मगवत्प्रधान दशातयो ब्रह्म सुतास्तु तेषां समत्परोऽहं द्विजदेवदेवः नाब्रह्मणैस्तुलये भूतमन्यत्पश्यामि विप्रा किमतः परं तु यस्मिन् निरूपी प्रभृतं धृतातनूरुसती मे पुराणी येनेहसत्त्वं परमं पवित्रं समोदमः सत्यमनुग्रहश्च तपस्तिक्षानुभवश्च यत्र मत्तोऽप्यनात्परदपरस्मत् स्वर्गा भवर्घातिपतेर्न किञ्चित् येषां किमु स्यात् इतरेण तेषां अकिञ्चनानां मयि भक्तिभाजा सर्वाणि मद्दिष्ण्यतया भवद्भिः शराणि भूतानि सुता संभावितव्यानि सम्भावितव्यानि पदे पदे गो विविक्तदृग्भिष्टधुहार्हणं मे मनोवचोधृक्करेण हि विना पुमान् येन महाविमोहात् कृतान्तपासान्न विमोक्तुमीशेत् श्रीसुख उवाच एवम् अनुशास्य आत्मजान् स्वयम् अनुष्ठानामभिलोकान् अनुशासनार्थं महानुभाव परम सुहृद्भगवान् ऋषभाभतेश उपशमशीलानामुपरतकर्माणां महामुनीनां भक्तिज्ञान वैराग्यलक्षणं पारमहंस्य धर्मम् उपशिषमानस्त्वतनय सदज्ज्येष्ठम् परमभागवतं भगवज्जन परायणम् भरतम् धरणिम् पालानाय अभिक्षिच्य स्वयं भवन ये वोर्वरीतशरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्ण केश आत्मन्यो रोभित आवहनीयो ब्रह्मावर्थात् प्रवो राज जडान्तमोगभतिरपिशाचोन्माधवत् अवधूतवेशोभिम् भाष्यमाणो बिजानां गृहीतमौ न व्रतस्तूष्णीं बभूव तत्र तत्र पुर क्राम केटवाट कर्बट शिबिर व्रजकोशसार्त गिरिवन आश्रमाधिषु अनुपतम् अवनीचराबषधै परिभूयमानो मशिकाभिरिव वनगजस्तर्जन ताडन अवमेहनष्टीवन ग्राम सुखद्रजः प्रेक्षेपभूति वा तदुरुक्थे तदविगणयन्नेव असत्संस्थानयेतस्मिन् देहोपलक्षणे सधपदेश उभयानुभवस्वरूपेण त्वमहिमावस्थाने न ममाभिमानत्वात् अविकण्ठितमनां पृथिवीन् एकर च परिपभ्राम अतिसुकुमारकरचरणोरस्थल विपुल बाह्वं सघो वदनाधि अवयवविन्या स्वभावः सुमुखो नवनलिन दलायमान धारुणयाथ नयनरुचिरः शत्रुषः सुभकपुल कर्णकण्ठनासो विगूटस्मितवतन महोत्सवेन पुरवनिदानां मनसि कुसुमसरासनमुभधतनः अवलम्बमानकुटिलझटिलकपिशकेश भूरिभारोभूतमलिन निजशरीरेण ग्रहगृहीत इवा दृश्यथ यर्हि वा वस भगवान् लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षणास्तत्प्रतिक्रिया कर्मभिपत्सितमिति व्रतम् आ जगरस्मास्ति तस्य यानगेवास्नातिभिपतिघातत्यवमेहति हदति स्म श्रेष्ठमानमुच्चरित आदिग्धोद्देशः देशं दशयोजनं समन्तात् चकार एवं गोमृतककाचर्यां रजं तिष्ठन् आशीनः काकम् मृगगोचरितः पिभति काततिमेह अवमेहति स्म इति नानायोगचर्याचरणो भगवान् कैवल्यभति ऋषभो परम परममहानन्त अनुभव आत्मनी सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मन अव्यवधान अनन्तरोधरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहाय स मनोजवान्तर्धान परहाय प्रवेश दुराग्रहणादीनि यदृश्चया उपकथानि इति श्रीमद्भागवते महापुराणे पञ्चमस्तन्ते वृषभदेवानुचरिते पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहराजिके जै